तस्मिन्नुपरते शब्दे भीमसेनो ब्रवीदिदम् प्रगृह्यरुचिरं दिव्यं भुजं चन्दनचर्चितम् भीमसेन उवाच यद्येश गुरुरस्माकं धर्मराजो महामनाः न प्रभुः न वयम् मर्षयेमहि ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः मन्यते जितमात्मानं यद्येष विजिता वयं न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् मर्त्यधर्मा परामृह्य पाञ्चाल्या मूर्धजानीमान् पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव नैतयोरन्तरं प्राप्य मुच्येतापि